नारायणीय दशक टू मीटर् शार्दूल विक्रीड़ सूर्यस्पर्धिरीटमूर्धतिलक प्रोद्भासीुण्याकुनेद्रभसी सुनासापुट गंडोदाभकुंडलयुगम कण्डोज्ज्वलत् कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे केयूराङ्गदकङ्गणोत्तमहा रत्नाङ्गुलीयाङ्गिदश्रीमद्बाहु चतुष्कसङ्गदगदा शङ्घारिपङ्गेरुहाम् काञ्चित् काञ्चन काञ्जिलाञ्जिदलः सत्पीदाम्बरालम्बिनीमालम्बे विमलाम्बुजद्युदिपदां मूर्तिं तवार्तिच्छितम् निधानतोऽपि मधुरम् माधुर्यधुर्यादपि सौन्दर्योत्तरतोऽपि सुन्दरतरम् त्वद्रूपमाश्चर्यतोऽप्याश्चर्यम् भुवनेन कस्य कुतुकम् पुष्णादि विष्णो विभो तत्तादृङ्मधुरात्मकम् तव वपुः सम्प्राप्य सम्पन्मयि सा देवी परमोत्सुकाचिरतरन्नास्ते स्वभक्तेष्वपि ते नास्यापदकष्टमच्युदविभोत्वद्रूप मानोज्ञकप्रेमस्थैर्यमयाद च फलबलाच्चाबल्य वार्तोदभूत् लक्ष्मीस्तावकरामणीयक हृदैवेयम् परेष्वस्तिरेत्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपदे ये त्वध्यानगुणानुकीर्तनरः सा सक्ता हि भक्ता जनास्तेष्वेषा वसति स्थिरैव दयित प्रस्ताव दत्ता धरा नवसुधा नवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेदोहरं शृण्वदाम् सद्यः प्रेरयदे मदिं मदयदे रोमाञ्जयत्यङ्गकं व्यासिञ्जत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः एवम्भूततया हि भक््यभिहितो योगः स योगद्वयात् कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमा वल्लभ निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं तद्दूरेत्यफलं यत उपनिषदज्ञानोपलभ्यं पुनः तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो प्रेमात्मकभक्तिरेव सततम् स्वादीयसी श्रेयसी अत्यायासकराणि कर्म पडलान्याचर्यनिर्यन्मला बोधे भक्ति पथे धप्युचितदा मायान्ति किं तावता क्लिष्ट्वा परम् तव वपुर्ब्रह्माख्य मन्ये पुनश्चित्तार्द्रत्वमृदे विचिन्त्य बहुभिः सिद्ध्यन्ति जन्मान्तरैः त्वद्भक्तिस्तु कथा रसामृदच्छरी निर्मज्जनेन स्वयं सिद्ध्यन्ति विमलप्रबोधपदवीमक्लेशतस्तन्वदी सद्यसिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पदप्रेमप्रौढि रसार्द्रदादृतरं वादालयाधीश्वर सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द